वाक्यरत्नावले षष्ठं प्रकरणम् अथ सार्धान्तिकजीवब्रह्मैक्यवाक्याने अष्टत्रिंशत् स यश्चायं पुरुषे यश्चासवादित्ये स एकः सत्यमात्मा ब्रह्मैव ब्रह्मात्मैवात्रयेव न विचकित्स्यम् त्वं ब्रह्मासि अहं ब्रह्मास्मि आवयोरन्तरं न विद्यते त्वम् एव अहम् अहम् एव त्वम् गताः कलाः पञ्चदशप्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु कर्माणि विज्ञानमयश्च आत्मा परे व्यये सर्व एके भवन्ति येनेयते शृणोतीदं जिगृतिव्याकरोति च स्वाद्वस्वादुविजानाति तत्प्रज्ञानमुदीरितम् चतुर्मुखेन्द्रदेवेषु मनुष्याश्वगवादिषु चैतन्यमेकं ब्रह्मातः प्रज्ञानं ब्रह्म मय्यपि परिपूर्णः परात्मास्मिन् देहे विद्यादिकारिणि बुद्धैः साक्षितया स्थित्वा स्फुरन्नहमितीर्यते स्वतः पूर्णः परात्मात्र ब्रह्मशब्देन अस्मेत्यैक्यपरामर्शात्तेन ब्रह्मा भवाम्यहम् एकमेवाद्वितीयं सन्नामरूपविवर्जितम् सृष्टेः पुराधुनाप्यस्य तादृक्त्वं तदितीर्यते श्रोतुर्देहेन्द्रियातीतं वस्त्वत्र त्वम्पदेतम् एकता ग्रायते सीति तदैका तदैक्यम् अनुभूयताम् स्वप्रकाशापरोक्षत्वम् अयम् इत्युक्ते तु मतम् अहङ्कारादिदेहान्तात्प्रत्यगात्मेति गीयते दृश्यमानस्य सर्वस्य जगतस्तत्त्वमेर्यते ब्रह्म ब्रह्मशब्देन तद्ब्रह्म स्वप्रकाशात्मरूपकम् मायाविद्ये विहायैव उपाधिपरजीवयोः अखण्डम् सच्चिदानन्दम् परम् ब्रह्म विलक्ष्यते हकारः केचरी प्रोक्तस्त्वम् पदम् सकारः परमेश स्यात्तत्पदम् चेति निश्चितम् सकारोऽध्यायते जन्तुर्हकारो हि भवेद्ध्रुवम् आद्योरात्तत्पदार्थस्यान्मकारस्त्वम् पदार्थवान् तयोः संयोजनमसीत्यर्थे तत्त्वविदो विदुः नमस्त्वमर्थी विज्ञेयो रामस्तत्पदमुच्यते अशीत्यर्थे चतुर्थी स्याद् एवं मन्त्रेषु योजयेत् क्षीरं क्षीरे यथा क्षिप्तं तैलं तैले जलञ्जले संयुक्तमेकतां याति तथात्मन्यात्मभिन्मुनिः घटे नष्टे यथा व्योम व्योमैव भवति स्वयम् तथैवोपाधिविलये ब्रह्म एव ब्रह्म जीव स्वयम् इति वाक्याने अष्टत्रिंशत् षष्ठं प्रकरणं समाप्तम्